गरुडपुराणम् आचारकाण्ठम् अध्यायम् तर्टीन् हरिरुवाच प्रवक्ष्याम्यधुना ह्ये शुभम् नमो नमस्ते गोविन्दम् चक्रम् गृह्य सुदर्शनम् रक्षस्व माम् विष्णो त्वामहम् शरणम् गदः गदां कौमोदकीं कृष्णपद्मनाभनमोऽस्तु दे यां यां रक्षस्व मां विष्णो त्वामहं शरणं गदः हलमादाय सौनन्दे नमस्ते पुरुषोत्तम प्रतीच्यां रक्ष मां शरणं गदः मुत्सलं शादनम् गृह्य पुण्डरीकाक्ष रक्ष उत्तरस्यां जगन्नाथ भवन्तं शरणं गदः खड्गमादाय चर्माथ अस्त्र शास्त्रादिकं हरे नमस्ते रक्षरक्षोघ्न ऐशान्यां शरणं गदः पाञ्चजन्यम् महाशङ्खमनुघोष्यं च पञ्चकम् प्रगृह्य रक्ष मां विष्णो आग्नेययाम् रक्षशुकरा चन्द्रसूर्यम् समागृह्य खड्गम् चान्द्रमसं तथा नैरृत्याम् माम् च रक्षस्व दिव्यमूर्तेकेशजिन् वैजयन्तीम् स्म प्रगृह्य श्रीवत्सम् कण्ठभूषणम् वायव्याम् रक्ष देव। माम् देवहयग्रीवनमोऽस्तु दे वैनतेयम् समारुह्य त्वम् तरिक्ष्ये त्वम् तरिक्षे जनार्दन माम् रक्षस्वाजित सदा नमस्ते स्त्वपराजित विशालाक्षम् समारुह्य रक्ष माम् त्वम् रसातले अकोपालनमस्तुभ्यम् महामीनमोऽस्तु ते करशीर्षाद्यङ्गुलेषु सत्यम् त्वम् बाहु पञ्चरम् कृत्वा रक्षस्व माम् विष्णो नमस्ते पुरुषोत्तम यदुक्तम् शङ्कराय वैष्णवम् पञ्चरम् महद पुराराक्षार्थमीशान्या कात्यायन्याविषध्वज नाशायामास सा येन चामरान्महिषासुरान् यदजपन्नरो ये भक्र्या शत्रून्विजयदे सदा इति श्रीगरूढे पूर्वखण्डे प्रथमाशाख्ये आचारखण्डे विष्णु पञ्चरस्तोत्रम् नाम त्रयोदशोऽध्यायः ओम्